ूर्भुवः स तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदया रेण्यम् भर्गो देवस्य धीमहि धि यो न प्रचोदया ओम। ो भूर्भुवः स तत्स वितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो न प्रचोदय ओम। ओम् भूर्भुवः स तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो ॐ भूर्भुवः स तत्सविकुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् ओम। भर्गो देवस्य धीमहि धियो यो न प्रचोदया ॐ भूर्भुवः स तत्सविकुर्वरेण्यम् भर्गो देवस्य धीमहि ॐ भूर्भुवः ओम, स्व तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदय भर्गो देवस्य धीमहि धियो यो न प्रचोदया ॐ भूर्भुवः स्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न या